हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे अष्टषष्टि तम सर्गः कुम्भकर्णवधं श्रुत्वा विलाप रावणस्य विलापः कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मनः राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् राजन्स कालसंकाशय संयुक्ताय कालकर्मणा विद्राव्य वानरिं तेनां भक्षयित्वा च वानरम् प्रतपित्वा मुहूर्तं तु प्रशान्तो राम तेजसः कायेनाथ प्रवीतेन समुद्रं भीमदर्शनम् निकृतनासः कर्णेन क्षरद्रुधिरेण च ऋध्वा द्वारं शरीरेण लङ्काया पर्वतोपमः कुम्भकर्णस्तव भ्राता काकुत्स्थजर पीडितः अगण्डभूतो विभृतो दावदग्ध इव द्रुमः श्रुत्वा विदेह तं सङ्ख्ये कुम्भकर्णम् बलम् रावण शोकसन्तप्तौ मुमोच च पपात च पितृव्यं नियतं श्रुत्वा देवान्तकनरान्तय चातिकाय च ऋदुशोकपीडिताः भ्रातरं नियतं श्रुत्वा रामेणाक्लिष्ट कर्मणः महोदरे महापाशो शोका क्रांतो बभूवसु तथ्रा सामस्य सौनियास पुंग कुंभकर्ण वध दीनो विललापायकन्द्रिय वीर ऋपु दर्प्न कुंभकर्ण महबल तम मिहाय वै यातो सदनम मम शल्यम मनु बान्धवानां महाबल शत्रुसैन्यं प्रताप्यैक क्व मां सन्त्यज्य गच्छति इदानीं खल्वहं नास्मि यस्य मे पतित भुजे दक्षिणोऽयं समाश्रित्य न बिभेमि सुरा सुरा कथमेवं विधो वीरो देव दानवदर्पः कालाग्नि प्रतिमोहद्य राघवेण रणे हतः यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं ततः स कथं रामबाणार्थ महीतले एते देवगणासार्धं ऋषिभिर्गगने स्थितः नियतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ध्रुवम् मध्ये एव संवृष्टा लब्धलक्षा प्रवङ्गमः आरोक्षन्ती दुर्गाणि लङ्काद्वाराणि सर्वशः राज्ये न मे कार्यम् किं करिष्यामि सीतया कुम्भकर्णविहीनस्य जीविते नास्ति मे मतिः यद्यहम् ध्रातुहन्तारम् न हन्मी युधि ननु मे मननम् श्रेयो न चेदम् व्यर्थजीवितम् अद्यैव तम् गमिष्यामि देशम् यत्र न जो मम न हि भ्रातृम् समुत्सृज्य क्षणम् जीवितुमुत्सहे देवा हि माम् दृष्ट्वा पूर्वापकारिणम् कथमिन्द्रम् जयिष्यामि कुम्भकर्णहते त्वयि तदिदम् माम् अनुप्राप्तम् विभीषणवच शुभम् यदज्ञानान् मया तस्य न गृहीतं न विभीषणवचस्तावत् कुम्भकर्णप्रस्तयोः विनाशोऽयं समुत्पन्नो मां व्रीड यति दारुणहे तस्यायं कर्मण विपाको मम शोकदः यन्मया धार्मिक श्रेमान सनिरस्तो निरतो विभीषणः इति बहुविधमा कुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् न पददपि दशाननो भृषात् तमनुजमिन्द्र इत्याशिम रामायणे वर्णीकीय अधिकारी युद्धकाण्डे अष्टषष्टिमस्त्रमस्तु